मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं तर्टिसिक्स् रेणुकाजमदग्निसञ्जीवनकरणं श्रीगणेशाय नमः मुद्गल उवाच गदे राजनिभोदक्षजमदग्निर्महामुनिः रेणुकां च समाहूय वृत्तान्तमवदत् स्वयम् ततस्ताभ्यां स्मृदा देवी कामधेननुः प्रजापते समागदाम् प्रसम्पूज्य प्रार्थयन्दावुभौ समम् भोजनाय निमन्त्रितः तदर्थं कुरु कल्याणि यत्नं प्रत्वरिदासी तयोर्वचनमाकर्ण्य कामधेन्वा महापुरं रचितं स्वप्रभावेण परिखावलयाङ्गितं चतुर्विधानसंयुक्तां निर्ममे पाकशालिकां क्षणेन तां समालोक्य हर्षितश्चाभवन्मुनिः शिष्यैराजानमाहूय ससैन्यं तं प्रजापते भोजयामास विप्रोसावन्नैर्नाना विद्धैः परैः अमृतकल्परूपं ते बुभुजुर्हर्षसंयुताः तृप्तास्ते फलकन्दादीन् भक्षयामासुरादृताः ताम्बूलानि तद सर्वे बभक्षुः प्रेम संयुताः तदो वस्त्रादिभिस्ते च सत्कृदा मुनिना बभुः राजाध विस्मिदो भूत्वा प्रणनाम महामुनिम् आज्ञाम् गृहीत्वा सैन्येन ययौ स्वनगरम् प्रदीप गच्छन्तम् प्रधानं प्रधानम् च ऊचे विनयसंयुतः धेनुम् प्रार्थय राजंस्त्वम् ब्राह्मणस्ताम् प्रदास्यदि इयं धेनुर्महाराजरत्नभूदानसंशयः तां विना राज्यमुग्रं ते निष्फलम् भासतेऽधुना तस्य तद्वचनं श्रुत्वा राजा मोहेन संयुतः विघ्नेन पीडितोऽत्यन्तमुवाच सचिवं वचः गच्छत्वं प्रार्थ्य विप्रं तं धेनुमानाय यत्नदः तथेदि सैन्यमादाय मुनिं दुष्टः प्रधानं मुनिमुख्यं तं प्रणम्याभिदधे मुनेर्धेनुमिमां देहिराज्ञे ह्यतिधिरूपिणे ततस्थं कोपसंयुक्त उवाच मुनिसत्तमः न दास्यामि महामूर्खधेनुं देवस्वरूपिणीं तदसोऽपि महावीरायिर्धृत्वा धेनुम् लात्कलः निर्जगाममुनेस्तस्याश्रमात् कोपसमन्वितः ततो धेनुःसमाक्रुद्धा ससृजे बलमुत्कडं तेनसेन्यं हदं तस्य सहितं प्रभो ज्ञात्वा वृत्तान्तमुग्रं तम् क्षुभिधकृतवीर्यजः युद्धार्धं गर्वसंयुक्तो ययौ यु तस्याश्रमं विधे ततस्तस्य महत्सैन्यं हदं धेन्वा बलेन वै राजा खेदसमायुक्तो पपालगदमत्सरः कामधेनुर्गदास्वर्गं पुनः राजा समाययौ हृदिविव्याधबाणेन मुनिः सोऽपि ममारह तदस्तं भर्त्सयामास रेणुकाभूमिपाधमम् एकविंशतिबाणैस्तां नृपो विव्याध सर्वतः ततःसा क्षुभितात्यन्तं तमुवाच नृपाधमं स्वल्पकालेन राजंस्त्वं मरिष्यसि न संशयः सहस्रबाहुश्चेदस्ते भविष्यदि सुदुर्मदे तदसोऽपि भयोद्विग्नो जगामनगरेष्वके गते भूपे मुनेः पत्नी रुरोदकरुणः स्वरा सस्मारतनयं रामं बदर्याश्रमगं प्रभुं स्मृतिमात्रेण रामः स ययौ माधुस्तदान्तिकम् दृष्ट्वा मृदं महाविप्रं पितरं प्ररुरोदः माधरं बाणनिचयैश्चिदां वीक्ष्य विशेषदः प्रभोर्निष्कासयामास शरान् माधुशरीरगान् तदस्तं रेणुकादेवी सान्द्वयामासयुक्दः माशोकं कुरुपुत्रत्वं कुरु निकटे प्रभो दत्तात्रेयं समानीय कुरु कर्म यथाविधि आवयोः प्रभविश्यावो देहयुक्तौ प्रभो। नान्यो वक्दान सन्देहस्तस्माद्यत्नपरो भव जहिदुष्टं च भूपं त्वं हस्तानां चेदनं कुरु तदस्ते जनकं तत्र तस्य देहोद्भवेन च रक्तेन तर्पयस्वत्वं तृप्तसोपि भविष्यति ममाङ्गे एकविंशच्च बाणास्तेन समर्पिताः एकविंशतिवारं त्वं कुरु निःक्षत्रियां धराम् यवमुक्त्वा गदा देवी स्वर्गे देहं विसृज्य सा रामस्तथा चकारासौ दत्तेन सहितस्ततः पञ्चमे दिवसे रामः कर्म समास्थितः दत्तात्रेयश्च स्वस्थाने ययौ भिक्षार्थमादराद षष्ठे दिने समायाध व्याघ्रस्तत्र महाबलः तम् दृष्ट्वा भयसंयुक्तो सस्मार मादरं स्मृतिमात्रेण सा यादा शिरो मात्रा प्रजापदे तां दृष्ट्वा विस्मितो रामस्तमुवाच हि रेणुका किमर्थं पुत्रकाहुदा तव स्नेहात् समागदा तदोऽन्तर्धानमकरोद्व्याक्रः परमदुर्जयः यदस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ दृष्ट्वा तां राममामन्त्र्यो वाच योगविदाम्बरः समागदात्वयाताद किमर्थं रेणुका स्मृता न्यूनदेहविशेषेण कुरु कर्म यथा तथं वृत्तान्तं कथयामास रामस्तं मुनिसत्तमं चकारकर्म साङ्गं तद्दत्तेन सहितः प्रभुः सपिण्डीकरणं रामश्चकारद्वादशेखनि पाधेयश्राद्धमेवंसत्रयोदशदिने तथा ततः स जमदग्निस्थं दिव्यदेहःसमागतः राममालिङ्ग्यसंहृष्टो बभूव मुनिसत्तमः जमदग्निं तदो दत्तो हर्षसंयुतः उवाच भावगम्भीरो बोधयन् बोधदायकः गणेशं मन्द्रराजेन भजदं भावपूर्वकं तेन विघ्नविहीनौ च शान्तिरूपौ भविष्यधः क्षत्रहस्तेन मरणं युवाभ्यां प्राप्तमेव च विघ्नराजमविज्ञाय जातौ दुःखेन संयुक्तौ यवमुक्त्वा गणेशस्य ददौ मन्त्रं महामुनिं ताभ्या मे काक्षरं विप्रौ तपोयुक्तौ बभूवधुः दत्तश्च स्वश्रमे तद्वाद्ययौ हर्षसमन्विदः पित्रो सेवार्थमानन्दाद्रामस्तत्र स्थितोऽभवदत् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदिश्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रेणुकाजमदग्नि सञ्जीवनकरणं नाम षट्त्रिंश्योऽध्यायः ओम्